मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं तर्टि नैन् गृत्समदप्रोक्तबाह्यपूजावर्णनं श्रीगणेशाय नमः ऐल उवाच बाह्यां पूजां गृत्समदकीर्तिदां वदमे विभो तेन मार्गेण विघ्नेश्यं भजिष्यामि निरन्तरं गार्ग्य उवाच आदौ च मानसीं पूजां कृत्वा कृत्समदो मुनिः चकारविधिवद्बाह्यां तां शृणुष्व सुखप्रदां हृदिध्यात्वा ध्यात्वा परिवारादि परिवारादिसंयुधम् नासि कारन्ध्रमार्गेण बाह्यगम् तं चकारसः आदौ वैदिकमन्त्रं स गणानां त्वेदि सम्पठन् पश्चात् श्लोकम् समुच्चार्य पूजयामास विघ्नपम् गृत्समद उवाच चतुर्बाहुं त्रिनेत्रम् च जास्यम् रक्तवर्णकम् पाशाङ्कुशादि संयुक्तम् मायायुक्तम् प्रचिन्तये आगच्छ ब्रह्मणाम्नाद सुरासुरवरार्चित सिद्धिबुद्ध्यादि संयुक्त भक्तिग्रहणलालस कृतार्थोऽहम् कृतार्थोऽहम् तवा तवागमनतः प्रभो विघ्नेशानुगृहीतोऽहं सफलो मे भवो भवेत् रत्नसिंहासनं स्वामिन् गृहाणगणनायक तत्रोपविश्य विघ्नेश रक्षभक्तान् विशेषतः सुवासिताभिरद्भिश्च पादप्रक्षालनम् प्रभो शीतोष्णाभिश्चे करोमि गृहाणपाद्यमुत्तमम् सर्वतीर्थाहृदन्तोऽयं सुवासिदं सुवस्तुभिः आचमनं च तेनैव कुरुष्व रत्न मुक्तानर्ख संस्कृत प्रभो अर्ख्यं अर्घ्यम गृहांब्विदानन तो दधि मधुकृदुम मधुपर्कं गजानन गृहा भावुक माया दत् नमोस्तु पाद्येजमधुपर्के च स्नाने वस्त्रोपधारणे उपविदे भोजनान्ते पुनराचमनं कुरु चम्भकाद्यैर्गणाध्यक्षवाश्रिदं तैलमुत्तमम् अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु यक्ष यक्षकर्दमकाद्यैश्च विघ्नेश भक््रवत्सल उद्वर्तनं कुरुष्वतं मया दत्तैर्महाप्रभो नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः कमण्डलूद्भवैष्णानं मया कुरु समर्पितैः कामधेनुसमुद्भूतं पयः परमपावनम् स्नानं कुरुष्व त्वम् हेरम्ब परमार्थविद पञ्चामृतस्य मध्ये जलस्नानं पुनः पुनः कुरुत्वं सर्वतीर्थेण ब्रह्म कमण्डलूद्भवैः दधिधेनुपयोभूदं मलापहरणं परं गृहाणस्नानकार्यार्थम् विनायकदयानिधे सन्तोषकारकं ढुण्ढे कृदं धेनुसमुद्भवम् महामलापखादार्थं तेन स्नानं कुरुष्व भोः पूर्णं मधुरसोद्भूतं सरखास् संस्कृतं मधु गृहाणस्नानकार्यार्थम् विनायकनमोऽस्तु ते इक्षो रससमुद्भूतां शर्करां मलनाशिनीं गृहाणगणनाधत्वं तया स्नानं यक्षकर्दम यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर आन्द्यं मलहरं शुद्धं सर्व सौगन्ध्यकारकं तदो गन्धाक्षतादीन् दूर्वां कुरांश्च गजानन समर्पयामि स्वल्पास्त्वं गृहाणपरमेश्वर ब्राह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः अभिषेकं ते करोमि द्विरदानना गृहानना तीर्थरा चमनम देवस्तु सुवासी कुगणनाधवन वै वस्त्रुगमे गृहामे रनकोकलज्जाव विघ्नराजनमोऽस्तु ते उत्तरीयं सुचित्रं ते नभस्ताराङ्कितं यथा गृहाण सर्वसिद्धिश मया दत्तं सुभकृतः उपवीदं गणाध्यक्ष गृहाणत्वं ततः परं त्रैगुण्यमयरूपं तु बंधनं प्रणवग्रंथिबंधनम तद सिंधूकृाण गणनायक अंगलेपन भावा विवर्धना भूषण विचित्रानि सर्वांगे भूषणाये सुवर्णरत्ता गृहाणभोः अष्टगन्धं समायुक्तं गन्धं रक्तं गजानन द्वादशां गेषु ते ढुण्ढे लेपयामि सुचित्रवद रक्तचन्दन संयुक्तानथवा कुङ्कुमयुर्युधान् गणराज गृहाणत्वमक्षदालमण्डले कह्लारचम्पकादीनि रक्तानि च गजानन पुष्पाणि शमीमन्दार दूर्वादीनि गृहाण च दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् गृहाणत्वं मया दत्तं विनायक महोदर नानाजादिभवं दीपं गृहाणगणनायक अज्ञानं मानसं दोषम् अरन्दं ज्योतिरात्मकं चतुर्विधानसम्पन्नं मधुरं लड्डुकादिकम् नैवेद्यं ते मया दत्तम् भोजनं कुरु विघ्नव सुभासितं गृहाणेदं जलम् तीर्थसमाहृतं भुक्तिमध्ये च पानार्थं देवदेवेष्यते नमः भोजनान्ते दे करोद्वर्तं यक्षकर्दमकेन च कुरुष्वत्वं गणाध्यक्ष पिपतोऽयं सुवासितं खर्जूरं दाडिमं द्राक्षां रम्भादीनिफलानि वै गृहाण देवदेवेश नाना मधुरपाणि देवतां भूलं देवताम्बूलं गृहाणमुखवासनम् असकृद्विघ्नराजत्वं मया दत्तं विशेषतः दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवां रत्नाद्यै संयुधां ढुण्ढे गृहाण सकलप्रिया राजोपचारकाद्यानि गृहाणगणनायक दानाचिरा मै दत्ता विघ्नप तद आवरण पूजया विधान उपचारे विविधस्ो भव प्रभो ततो दूर्वाङ्गुरान्ढुण्ढे एकविंशतिसङ्ख्यकान् गृहाणन्यूनसिद्ध्यार्थं भक्तवात्सल्यकारणादनादीपसमयुक्तं नीराजनं गजानन गृहाणभावसंयुक्तं सर्वाज्ञानविनाशन गणानां त्वेदि मन्त्रस्य जपं साहस्रकं परं गृहाणगणनाथत्वं सर्वसिद्धिप्रदो भव कर्पूराद्यां महार्तिं च नानादिपमयीं प्रभो गृहाणज्योतिषां नाथ तया निराजयाम्यहम् पादयोस्ते तु चत्वारि वदने प्रभो एकं तु सप्तवारं वै सर्वाङ्गेषु नीराजनं चतुर्वेदभवैर्मन्त्रैर्गणपत्यैर्गजानन मन्त्रितानि गृहाणत्वं पुष्पपत्राणि विघ्नप गाणपत्यैः पञ्चविधमयैः स्तोत्रैर्गणाधिप स्तौमित्वां तेन सन्तुष्टो भवभक्तिप्रदायक एकविंशतिसङ्ख्याकां त्रिसङ्ख्यां वा गजानन प्रदक्षिणां गृहाणत्वं ब्रह्म ब्रह्मेश भावदः साष्ठाङ्गां प्रणदिं नाद एकविंशति संहितां हे रम्भसर्वपूज्यत्वं गृहाणदुमया कृता नूनातिरिक्तभावार्थं काञ्चित् दुर्वाङ्गुरान् प्रभो समर्पयामि तेनत्वं त्वं साङ्गां पूजां कुरुष्व त्वया दत्तं स्वहस्तेन निर्मूल्यं चिन्तयाम्यहं शिखायां धारयाम्येव सदा सर्वप्रदं च तत् अपराधानसङ्ख्यादान् क्षमस्वगणनायकभक्तं कुरु च मां ढुण्ढे तव पादप्रियं सदा त्वमादा त्वं पिता त्वं वै सुहृत् सम्बन्धिकादयः त्वमेव कुलदेवश्च सर्वं त्वं मेन संशयः जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ् मानसैकृतं सांसर्गिकं च यत्कर्म गणेशाय समर्पये बाह्यं नानाविधम् पापं महोग्रं तल्लयं व्रजेद गणेशपादतीर्थस्य मस्तके वदनात् किल पादोदकं गणेशस्य पीतं नरेण तत्क्षणाथ सर्वान्तर्गतचम् पापं नश्यदि गणनाधिकम् गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु योर्चयेद गणेशतुल्यरूपस्य दर्शनात् सर्वपापः यदि गणेशपूजादौ गन्धं भस्मादिकं चरेद गणेशोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेद द्वादशाङ्गेषु नाम नाममन्त्रेण चार्चयेद तेन सोपि गणेशस्य समो भवति भूतले गणेश्वरं मूर्ध्नि ललाडे विघ्ननायकं दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेद् वामे कर्णस्य मूले वै क्षैकदन्तं समर्चयेद कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा बाह्यौ दक्षिणके चैव वा हेरम्बं वामबाहुके विकटं नाभिदेशेदु विनायकं समर्चयेद कुक्षौ दक्षिणभागे तु मयूरेशं समर्चयेद् वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनं सर्वाङ्गलेपनं शस्थं चित्रिदं गन्धमष्टकैः गाणेशानां विशेषेण सर्वभद्रस्य कारणाद। भुक्तशेषं तु नैवेद्यं गणेशस्य भुनस्म्यहं प्रदं पूर्णं नानापापनिकृन्दनं गणेशस्मरणेनैव करोदिकालखण्डनं गाणपत्यैश्च संवासो गजानन सदास्तु मे गार्ग्य उवाच एवं घृत्समदो पूजनं त्रिकालेशु महायोगी सदा भक्तिसमन्विदः तथा कुरु महीपालगणपत्यो भविष्यसि यथा गृत्समद साक्षात् तथा त्वमपि निश्चितम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदप्रोक्तबाह्यपूजावर्णनं नामैकोनचत्वारिं सप्तमोऽध्यायः ॐ